श्रीहरये नमः अथ सप्तमोऽध्यायः राजोवाच कस्य हेतोपरित्यक्त आचार्येणात्मनः सुराः एतदाच्वभगवन् शिष्याणामक्रमं गुरौ श्रीसुख उवाच इन्द्रत्रिभुवनैश्वर्यं दोल्लङ्घितसद्भदः मरुद्भिर्वसभिरुध्रैर् आदित्यैरुभुभिर्नृपा विश्वे देवैश्च शाद्यैश्च नासद्याभ्यां परिश्रितः सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः किन्नरैः पथघोरघैः निषेव्यमाणो मघवान् स्तूयमानश्च भारत उपगीयमानो ललितम् आस्थानाध्यासनमाश्रितः पाण्डुरेणा तपत्रेण चन्द्रमण्डलचारुणा तश्चाञ्चै पारमेष्ठियैश्चामरव्यजनादिभिः विराजमान पौलोम्या स हार्धसनया वृशम् स यथा परमाश्चर्यम् देवानम् आत्मनश्च नाभ्यनन्दतसम्प्राप्तं प्रत्युत्थान वाचस्पतिं मुनिवरं सुरासुरनमस्कृतं नोच्चचालासनातिन्द्र पश्यन्नपि सभागतं ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः आययौ स्वगृहं तूष्णी विद्वान् श्रीमदविक्रियां दर्ह्येव प्रतिबुद्धेन्द्रो गुरुहेलनमात्मनः गर्हयामास सदसि स्वयमात्मानमात्मना अहोभतं ममा साधु कृतं वैधप्रबुद्धिना यन्मयैश्वर्यमत्तेन गुरुः सदसिकात्कृतः को घृत्येत्पण्डितो लक्ष्मीं त्रिविष्टपतेरपि ययाहमासुरं भावं नीदोऽद्य ये पारमेष्ठ्यं धिषणम् अधिदिष्ठन्न कञ्चन प्रत्युत्तिष्ठे धितिब्रूयोर्धर्मं तेन परं विदुः तेषां कुपदधेष्टॄणां पततां तमसि ह्यधः ये श्रद्धत्युर्वचस्ते मज्जन्ति अस्मप्लवा इव अतःहम् अमराचार्यम् अगाधति क्षणं द्विजं प्रसादयिष्ये निषटसिष्णातच्चरणं स्पृशन् एवं चिन्तयतस्तस्य मघो भगवान् गृहात् बृहस्पतिर्गतो दृष्टां गतिम् अध्यात्ममायया गुरो नाधिगतः भगवान् स्वराट् ध्यायन् धियासुरैर्युक्त सर्वनालभधात्मनः तच्छ्रुत्वैवासुराः सर्व आश्रित्यौ स न देवान् प्रद्युत्यमं चक्रोर्धुर्मदा आततायिनः तैर्विसृष्टेष् विस्तीक्ष्णये निर्भिन्ना घोरु ब्रह्माणं शरणं जग्मो सहेन्द्रानतगन्धराः तांस्तथाभ्यर्धितान् वीक्ष्य भगवानात्मभूरजः कृपया परया देव उवाच परिशान्त्वयन् ब्रह्मोवाच अहोभत सुरश्रेष्ठा ह्यभद्रं वक्रतं महत् ब्रह्मिष्ठं ब्राह्मणं दान्तम् ऐश्वर्यान्नाभ्यनन्दत तस्यायम् अन परेभ्यो वः परा भवः प्रक्षीणेभ्यः स्ववैरेभ्यः समृद्धानां च यत्सुराः मघवन्द्विषधत् पश्य गुर्वति क्रमात् सम्प्रति उपचितान्भूय काव्यमाराध्यभक्तितः आधधीरन्निलयनं ममा विभृगुदेवताः त्रिविष्टपं किं गणयन्ति आभद्यमन्त्रा भृगूणाम् अनुशिक्षितार्थाः न तत् विश्वरूपं भजदा सुविप्रं तपस्विनं द्वाष्ट्रम् अधात्मवन्तम् सभोजितोऽर्थान् सविधास्येवो यदि क्षमिष्य तयेवमुदिताराजन् ब्रह्मणा विगदच्छराः ऋषिन्त्वाष्ट्रम् उभव्रज परिष्वज्येतमब्रुवन् देवावूचो वयं ते दि प्राप्ता आश्रमं भद्रमस्तुते ते कामः सम्बाध्यतां ताथ पितॄणां समयोचितः पुत्राणां हि परो धर्मः पितृसक्ष्रूषणं सताम् अपि पुत्रवतां ब्रह्मन् किमुतः ब्रह्मचारिणाम् आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः भ्राता मरुत्पथेर्मूर्तेर् माता साक्षाक्षितेस्तनुः दयाया भगिनी मूर्तिर्धर्मस्यात्मा तिथिस्वयम् अग्ने अभ्यागतो मूर्ते सर्वभूतानि च आत्मनः तस्मात् पितॄणामार्थानाम् आर्तिं परपराभवम् तपसा अपनयं स्थाद सन्देशं कर्तुमर्हसि वृणीमहेत्वोभाध्यायं ब्रह्मिष्टं ब्राह्मणं गुरुं यथाज्ञसा विजेष्याम सपत्नां स्तव तेजसा न गर्हयन्ति ह्यर्तेषु यविष्ठाङ्ग्र्यभिभाधनं छन्दोभ्योऽन्यत्र न ब्रह्मन् वयोज्यैष्ठस्य कारणं ऋषिरुवाच अप्यितसुरगणे पौरोहित्ये महातपाः स विश्वरूपस्थानाः प्रसन्नस्लक्षणया गिरा विश्वरूप उवाच विगर्हितं कथं नु मद्विधो नाथ लोकेशै अभियाचितं प्रत्याज्ञास्यति तच्चिष्य स एवं स्वार्थमुच्यते अकिञ्चनानां हिधनं शिलोञ्चनं तेहेन निर्वर्तितसाधुसत्क्रियः कथं विगर्ह्यं नु करों यदीश्वर पौरोदसं हृष्यति येन धुर्मतिः तथापि न प्रतिरुभ्यं कुरुभिः प्रार्थितं कियत् भवतां प्रार्थितं सर्वप्राणैः अर्थैश्च साधये श्रीशुक उवाच तेभ्य एवं प्रतिश्रुध्य विश्वरूपो महातपः पौरोहित्यमृतश्चक्रे सुहद्विषां श्रियं गुप्ता मौनस्यापि विद्यया आचित्या धान्महेन्द्राय वैष्णव्या विद्यया विभु यया गुप्तसहस्राक्षो ऋविके अशरचमुर्विभुः तां प्राकसमहेन्द्राय विश्वरूप उदारधीः इति श्रीमद्भागवते महापुराणे षष्टस्कन्ते सब्धमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज की जयम्